श्रीहरये नमः अथ नवमोऽध्यायः श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरां क्षित्रीणि सोमपीतं सुरापीत मन्नाथमिति शुश्रमा स भागं प्रत्यक्षमुच्चकैः अवदत्स्य पितरो देंवा सश्रय नृप सयिद परमसुरां प्रती यजम वहद्भागस्हवशागहालनम तस् धर्मीक आलक्ष्यतरस्तर्षाण अच्छिदृश सोमपीतं तु यत् तस्य शिर आसीत् कबिञ्जलः कलविङ्कशुरापीतम् अन्नाधं यत् स तिरिहत्या जग्राह यदपीश्वरः संवत्सरान्ते तदघं भूतानां स विशुद्धये भूयं भुभ्रमयोषिध्यश्चतुर्धाव्यभजत् भूमिस्तुरीयं जग्राह कादपूरवरेण वै ईरिणं ब्रह्महत्यायां रूपं भूमौ प्रदृश्यते तुर्यं चेदविरोहेण वरेण जगृहुर्द्रुमाः तेषां निर्यासरूपेण ब्रह्महद्या प्रदृश्यते सस्वत्कामवरोणं हस्तुरीयं जगृहुः स्त्रियः रजोरूपेण तास्वं हो मासि मासि प्रदृश्यते द्रव्यभूयो वरेण अपस्तुरीयं जगृहोर्मलं तासु भुत् दृष्टं धरति शिपन् अतः पुत्रस्ततस्वष्ठां जुगावेन्द्राय शत्रवे इन्द्रस्त्रो विवर्धस्व माचिरं जहि विद्विषम् अथान्वाहार्य पचनात् उत्तितो घोरधर्षणः कृतान्त इव लोकानां युगान्तसमये यथा विवर्धमानं तमिक्षु मात्रं दिने दिने दत्तशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसं मध्यानार्घोऽग्रलोचनं दे दीप्यमाने त्रिषिके शूल आरोभ्यरोदसी नृत्यन्तं बुन्नधन्तं च क्षालयन्तं भतामहीं धरी गम्भीरवक्त्रेण पिबता च न लिखता जिह्वयर्षाणि ग्रसता भुवनत्रयं महता रौद्रदंष्ट्रेण जृम्बमाणं मुहोर्मुहुः मोहो, विस्रः साधु ध्रुवोर्लोक वीक्ष सर्वे दिशो दश येनावृतो इमे लोकस्तमसा त्वाष्ट्रमूर्तिना स वैवृत्र इति तं निजग्नुरभिद्रुत्य सगणा विबुधर्षभाः स्वै स्वै दिव्यास्त्रशस्त्रौघये सोऽग्रसत्तानि कृत्स्नसहा ततस्ते विस्मिता सर्वे विषण्णा ग्रस्ततेजसः प्रत्यञ्जमातिपुरुषम् उपतस्तु समाहिता देवावूचो वायम्पराज्ञक्षितयस्त्रिलोकान् ब्रह्मादयो ये वयमुद्विजन्तः हरामयस्मै यस्मै बलिमन्तकोऽसौ बिभेति यस्मात् अरणन्ततो अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तं विनोपसर्पत्यपरं हि बालिसः स्वलाङ्गुलेन अतिथि धर्ति सिन्धुं यस्योरुशृङ्गे जगतिं स्वनावं मनुर्यथापत्यधार दुर्गम् स एव नस्त्वाष्ट्रभयाद्दुरन्तात्राध आश्रितान्वारिचरोऽपि नूनं पुरा स्वयं भूरपि संयमाम्भसि उदीर्णवाथोर्मिरवैः कराळे एकोरविन्धात्पतितस्ततार तस्माद्भयात् येन स ससर्जयेन अनुसृजाम विश्वं वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीषमानिनः यो नः सपत्नेर्भृशमर्ज्यमानात् देवर्षिधिर्यं नृषु नित्य एव युगे, युगे, युगे च तमेव देवं वयमात्मधैवतं परं प्रधानं पुरुषं विश्वमन्यं व्रजाम सर्वे शरणं शरण्यं स्वानां स नो दास्यति संमहात्मा त्रिशुक उवाच इति तेषां महाराज सुराणामुपतिष्ठतां प्रतीक्षां दिश्य भूधा वि आत्मतुल्यैषोटसभिर्विना श्रीवत्स कौस्तुभौ पर्युपासितं वुन्निद्र शरदं बुरुहेक्षणं दृष्ट्वा तमवनौ सर्व ईशाणाक्लादविक्लवाः दण्डवत्पतिता राजन् शनैवत्थाय तुष्टुभुः देवावूचू नमस्ते यज्ञवीर्याय वयसे उत ते नमः नमस्ते ह्यस्तचक्राय नमस्सु पुरुहूतये यत्ते गतीनां शृणामीसि तु परमं पथं नार्वाचिनो विसर्गस्य ताधर्वेदितुमर्हति ॐ नमस्ते स्तु भगवन्नारायणवासुदेव आदिपुरुष महापुरुषमहानुभावपरमङ्गलपरमकल्याणपरमकारुणिक केवलजगदातारलोकैकनाथ सर्वेश्वरलक्ष्मीनाथ परमहंस परिव्रजाकै परमेण आत्मयोगसमाधिना परिभावित परिस्फुट पारमहंसत्यधर्मेणोद्घाटिततमः कपाढद्वारे चित्ते पावृत आत्मलोके स्वयं उपलब्ध निज निच सुगानुभवो भवान् दुरवबोदैव ताव तवायं विकारयो शरणो शरीर इधम् अनवेक्षितास्मत्समवाय आत्मनैव विक्रियमाणेन स अद तत्र भवान् किं देवदत्तवधिह गुणविसर्गपतितः पारतन्त्रयेण स्वकृतकुशलाकुशलं फलम् उपादधात्याहोस्वित् आत्मा समञ्जसदर्शन उदास्त इति ह विरोत उभय भगवति अपरिगणितगुणगणे ईश्वरे अनवगाह्य माहात्म्ये अर्वाचीनविकल्प विदर्कविचारप्रमाणाभास कुदर्कशास्त्र कलिलान्तःकरणाश्रय दुरवग्रहवादिनां विवधानवसर उपरदसमस्तं मायामये केवल एव आत्मायाम् अन्तर्धायकोन्वर्ततो दुर्घट इव भवति स्वरूपद्वयाभावात् सभविषमतीना मतम् अनुसरसि यथा रज्जुकण्ठः हि पुनः वस्तुस्वरूप सर्वेश्वर सकल जगत्कारण कारणभूत सर्वप्रत्यगात्मत्वात् सर्वगुणाभासो बलक्षित एक एव पर्यवशेषितः अथ कवावतवमहि मामृतरस समुद्रविप्रुशा सकृत्तवल्लीढया स्वमनसि निष्यन्धमानानवरत सुखेन विस्मारितदृष्टा श्रुतविषयसुकले सा भाषा परमभागवता एकान्तिनो भगवती सर्वभूतप्रियसुहृदिस्सर्वात्मनि नितरां निरन्तरं निर्भृतमनसः कथमुखवायेत मधुमतनपुनः स्वार्थकुशला हि आत्मप्रियः सुहृतसाधवा द्वचरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्ततः त्रिभुवनात्मभवनत्रिविक्रमत्रिनयनत्रिलोकमा मनोहरानुभाव तवैव विभूतयो दिदिजत् अनुजातयश्चापि तेषामनुपक्रम समयोयमिति स्वात्ममायया सुरनरं मृगमिश्रितजलशराकृतिभेर्यपराधं दण्डं दण्डधर दधर्त एव अस्माकं तावकानां तव ता नतानां तदततामह तव चरणनळिनयुगळ ध्यानानुबद्धहृदयनिगडना स्वलिङ्गविवरणेनात् आत्मशात्रुता अनुकम्पानुरञ्चितविशदरुचिरशिशिर स्मितावलोकेन विगळित मुकरसामृतकलया शान्तस्तापम् अनघार्कसि शमयितुम् अथ भगवन्तवास्मापिर किल जगदुत्पत्तिस्थितिलयनिमित्तायमान दिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथा देशकालदेहावस्थान विशेषं तदुबाधनो फलं भगदयानुभवत सर्वप्रत्यसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मन कियानि ह वा अर्धविशेषो विज्ञापनीय स्यात् विष्पुलिङ्गातिभिरिवहिरण्यरेतसः अत एव स्वयं तदुपगल्प्यास्माकं भगवतः परमगुरोस्तव चरण सतपालाश्चायां संसारपरिश्रम उपशमनीम् उपश्रुतानां वयं यत्कामेनोपसादिताः अतो ईशजयित्वाष्ट्रं ग्रसन्तं भुवनत्रयं ग्रस्तानि येन न कृष्ण ते शस्त्रायुधानि च हंसाय दक्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयसे निरुपक्रमाय सत्सङ्ग्रहाय भव पान्तनिजाश्रमाप्तौ अन्ते परीष्टगतये हरये नमस्ते श्रीसुक उवाच अतैव मीठितो राजन् साधरं धृतशैर्हरिः स्वमुपस्थानमकर्ण्य प्राहतानभिनन्दितः श्रीभगवानुवाच प्रीतोऽहं वसुरश्रेष्ठां मधुपस्थान विद्यया आत्मैश्वर्य स्मृतिः पुंसा किं तु रापं मयि प्रीते तथापि बिबुदर्शभा मय्येकान्तमतेर्नान्यन्मत्तो वाञ्छति तत्त्ववेत् न भेदकृपणश्रेय आत्मनो गुणवस्तुधृ तस्य तानिच्छतो यच्छेत् यधिशोऽपि तथा वितः स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हे न रातिरोगिणोपत्यं वातो हि बिषत्तमः मघवन् यातपद्रं वो तद्यञ्च ऋषिसत्तमं गात्रं याचतमाचिरं स अश्विभ्यां ब्रह्मनिष्कळं यद्वा अश्वशिरो नाम तयो अमरतां व्यधाद् तद्यं आथर्वणस्त्वष्ट्रे वर्माभेत्यं भेद्यम् अधात्मकं विश्वरूपाय युष्मभ्यं याचितोऽस्विभ्यां धर्मज्ञोऽघानि दास्यति ततैस्तैरायुत श्रेष्ठ विश्वकर्म विनिर्मितः येन वृत्रशिरो हर्ता मत्तेजमुपभ्रंहितः तस्मिन् विनिहते यूयं तेजोऽस्त्रायुत सम्भतः भूय प्राप्स्यथ भद्रं वो नहिंसन्ति च मत्परान् श्रीमद्भागवते महापुराणे गोपिका जीवनस्मरणं गोविंद गोविंद सद्गुनाथ महाराज की जय